वासवप्रतिमोयेन जरा संधोति दुर्जयः विजितो बाहु युद्धेन देहभेदम् च लम्भितः द्रोणम् द्रोणीम् च साधुत्वम् पिता पुत्रौ महारथौ स्तुहि भीष्म भीष्मसततम् द्विजसत्तमौ ययोरन्यतरो भीष्मसङ्क्रुद्ध सचराचराम् इमाम् वसुमतीम् कुर्यान्निःशेषामिति मे मतिः द्रोणस्य हि समम् युद्धे न नाश्वत्थाम् नः समम् भीष्म न च तौ स्तोतुमिच्छसि पृथिव्याम् सागरान्तायाम् यो वै प्रतिसमो भवेत् दुर्योधनम् त्वम् राजेन्द्रमतिक्रम्य महाभुजम् जयद्रथम् च राजानम् कृतास्त्रम् दृढविक्रमम् द्रुमम् किम् पुरुषाचार्यम् लोके प्रथितविक्रमम् अतिक्रम्यमहावीर्यम् किम् प्रशंससि केशवम् वृद्धम् च भारताचार्यम् तथा शारद्वतम् कृपम् अतिक्रम्य महावीर्यम् किम् प्रशंससि केशवम् धनुर्धराणाम् प्रवरम् रुक्मिणम् पुरुषोत्तमम् अतिक्रम्य महावीर्यम् किम् प्रशंससि केशवम् भीष्मकम् च महावीर्यम् च भूमिपम् भगदत्तम् यूपकेतुम् जयत्सेनम् च मागधम् विराट बृहद्बलम् विन्दानुविन्दावावन्त्यौ पाण्ड्यम् श्वेतमथोत्तरम् शङ्खम् च सुमहाभागम् वृषसेनम् च मानिनम् एकलव्यम् च विक्रान्तम् कालिङ्गम् अतिक्रम्य महावीर्यं, किम् प्रशंससि केशवम् शल्यादीनपि कस्मात् शिवसुधाधिपान् स्तवाय यदि ते भीष्म सर्वदा